श्रीमद्भागवतमहापुराणं पञ्चमस्कन्धम् अथैकविंशोऽध्यायः और उसकी गतिकावर्णन् श्रीशोकुवाच एतावादेव भुवलयस्य सन्निवेशः प्रमाणलक्षणतो व्याख्यात एते दही दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयो अन्तरेणान्तरिक्षं तदुभयसन्धितं यन्मध्यगतो भगवान्तपतां पते सपन आतपेन त्रिलोकीं प्रतिपद्यभासयन्त्यात्मभाषा तये स उद्गयन् दक्षिणायनं वैशुवत् संज्ञाभिर्माद्य शौड्य समालाभिगतेभिरारोहणावरोहण समानस्थालेषु यथा सुमन् प्रतिपद्यमानो मकरादिषु राशिस्वहोरात्राणि दीर्घस्व समानानि विधत्ते यदा तदा होरात्राणि समानानि भवन्ति यदा वृषभादिषु तदा हान्येव वर्तन्ते यदा वृश्चेकादिशो पञ्चसो वर्तते तदाहोरात्राणि विपर्याणयं विपर्ययाणि भवन्ति यावद्दक्षिणाय न महाले वर्धन्ते यावदुदं गमनगयनं रात्रयः एवं नवकोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरि वर्तलस्योपदिशन्ति तस्मिन्नैन्द्रीं पुरीं पूर्वस्मां मेरोर्देवधानीं नाम दक्षिणतोयाम्यां शय्यमणिं नाम पञ्चाद्वारुणिं निं निम्नोचनीं नाम उत्तरतसौम्यां विभावरीं नाम तासुदयमध्याह्नां तमयनिशीथालीतिभूतानां प्रभेदेन वेद्येन वेद्दाले समयविशेषेण वेरोश्चतुर्दिशं तत्रत्यानां दिवसमध्यङ्गत एव सदादित्यन्तपति सव्येनाचलं दक्षिणेन करोति यत्रोदेति तस्य समानं शुद्रनिपाते निं लोचति यत्र क्वचन्स्यन्देन्नाभीतपति तस्य है समानं शुद्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति एतं शमनुपश्येरन् यदा चेन्द्रियापुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं सा योजनानां सार्धद्वादशलक्षणानि साधिकानि चोपयाति एवं ततो वारुणीं सौम्यामेन्द्रिं च पुनस्तथान्ये च ग्रहाः सोमादयो नक्षत्रैः ज्योतिश्चक्रे समभ्युज्यन्ते सह वाणीं लोचन्ते एवं हुर्तेन चतुस्त्रिंशल्लक्षो जनान्यष्टशताधिकानि सौरोरस्तन्त्रयीमयोशौ चतसृषु परिवर्तते पुरुषु यस्यैकं चक्रं द्वादसारं षण्णेमि तृणाभिः संवत्सरात्मकं समावलन्ति तस्याक्षो मेरोर्मूर्धने कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद् भ्रमन्मानसोत्तरगिरोपरिभ्रमते तस्मिन्नक्षे कृतमूलो द्वितीयोक्षूर्यमानेन तस्मिन् तन् तैलयन्त्राक्षवद् ध्रुवे कृतोपरिभागः रथनीरस्तु षडद्रीषल्लक्षयो जनाय तन्तुरीय भागविशालस्तावानं रविरथयुगो यत्र हयास्यन्दो नामानं सब्दारुणियोजिता पन्ति देवमादित्यं पुरस्तासवितुर्चाच्च नियुक्तः शोक्ते कर्मणि किलास्ते तथा वालकिल्यारिचयः अङ्गुष्ठपर्वमात्रा <coughs> तथा बाल्यखिल्या ऋषयः अङ्गुष्ठं सर्वमात्रा षष्टिसहस्राणि पुरतः सूर्यं सुक्तवाकाय नियुक्ताः संस्तुवन्ती तथा नेचि गन्धर्वाप्सरसो नागां यातु धानाम् यातु ग्राम्यो यातु धाना या या देवा इत्येकैकशोगणाः सप्तचतुर्दशमासिमासि भगवन्तं श्रीमहात्मानं नानानामानां पृथग् नानानामानः पृथग्कर्मभृद्वन्द्वस उपासते दक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं भूवनं यस्य क्षणेन सगभ्युतोत्तरं द्विसहस्रयोजनानि स भुङ्क्तेति श्रीमद्भागुते महापुराणे परं सां शयितायां पञ्चमस्कन्धे ज्योतिषजगसूर्यरथमण्डलवर्णनं नामैकविंशोऽध्यायः